अधद्वितीयस्कन्दः सर्वशास्त्रैः सुनिर्णीदम् माहात्म्यश्रवणादिकं हरेस्तत्त्वनिधेः पुंसा मोक्षसाधनमुत्तमं स्थूलधारणयाचित्तं वशीकृत्य गुहाशये निक्षिप्य तन्मना तत्पदम् प्रविशे यदद्वै जन्मनः जन्मनसारो भगवद्भजनं सदा अन्यथा व्यर्थजन्मासौ श्वसूकरसमः पुमान् ब्रह्मा वोचन् नारदाय त्वे ददेव विपृच्छते नारायणस्य पारम्यम् स्वस्मै प्रोवाचय यद्धरिः अव्यक्तात्महदादीनि सृष्ट्वा भूतानि संहतैः तैरण्डमुत्पाद्य हरिस्तत्प्रविष्टो व्यराजयद ये प्रपन्ना हरे पादं कापट्यादिविवर्जिताः त एव मायानिर्मोक्ता प्राप्नुवन्ति परं पदम् ब्रह्मणा सङ्ग्रहेणोक्तं विस्तारयितु मुत्सुकः नारदो भजनोत्कर्षं व्यासाय प्रत्यपादयद नारायणपरं तत्त्वं सर्ववस्तुप्रकाशकम् मायाकार्यं जगत् सर्वमिति ज्ञेयं मुमुक्षुणा इति नारायणेनोक्तम् ब्रह्मणे सङ्ग्रहेण वै मैत्रेयो विदुरायाः किञ्चिद्विस्तरतो मुनिः इति द्वितीयस्कन्दः